मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं 47 सेवेन् इन्द्रतारकसमागमम् श्रीगणेशाय नमः कृत्समद उवाच आगतं तारकं दृष्ट्वा हर्षितः मदासुरः दैत्यैः सह महासाधो प्रह्लन्नश्चाभवत्कलः मदासुरं प्रणम्यासौ कथयामास तारकः वृत्तान्तं देवपक्षे च संश्रितं कुलदैवतं तच्छ्रुत्वा मध्यपो दैत्यः प्रतापी स मदासुरः क्रोधयुक्तो भवत्तत्र देवान् हन्तुं समुद्यतः सन्नद्धैर् दैत्यपैः सर्वैः सन्नद्धश्च मदासुरः सक्विलोकं जगामाथ महाकाल इवा बभौ पुरप्रान्ते स्थितान् शक्तेर्गणान् परमविश्रुतान् तान् जघ्नुश्च महादैत्या शास्त्रायैः परमदारुणैः छिन्नाङ्गास्ते पालयन्द छिन्नाङ्गास्ते पलायन्द गदास्वनगरे भवन् वृत्तान्तं कथयामासुर्दैत्यानामागमात्मकं श्रुत्वा तत्र महाशक्तिर्देवैः सर्वैर्महाबलैः शङ्करादिभिरन्विता ययौ सङ्ग्राममण्डलं सिंहारूढा चतुर्बाहु खड्गचर्मधरा बभौ धनुर्बाणधरा क्रोधान्नाशक्तिसमन्विता वामाङ्गाच्छ्री समुत्पन्ना सावित्री दक्षिणाङ्गदः हृदया पुरदत् संज्ञा तासां सैन्यं पृथग् बभौ विष्णुशङ्करमुख्याश्च सन्नद्धा वाहने स्वस्वसैन्येन संयुक्ता बभुकालसमा इत्यादिशक्तिभिः शक्तैर्देवैर्वै संयुदमहद सैन्यम् दृष्टं परमदारुणं तदो दैत्यैश्च शस्त्रौखैस्ताडितं सहसा बलाद शक्तिसैन्यं महाघोरं क्रोधयुद्धं बभूवः शक्त्या सम्प्रेषिता देवा युयुधूरणमण्डले कालिकाद्यामः युद्धे शक्रयः कुपिता भृशम् अकस्मान्मिलिते सैन्ये परस्परजयैषिणी दैत्यानां चैव देवानां मरणे कृतनिश्चये सैन्यानां रजसा तत्र हृदं ज्ञानं समन्तदः न स्वपरज्ञानकारकः हेषितैः स्वेडितैस्तत्र ब्रंहितैर्निरधनेमिभिः वादित्राणां महाशब्दैर्नादयुक्ता दिशो भवन् शङ्खनाथैः सिंहनादैर्नानादैश्च ना दैत्यप बधिरा इव योधास्ते संजादारणमूर्धनि शस्त्रैरस्त्रैरनेकैश्च परिजघ्नुसमन्तदः द्रुम्मैपर्वतखण्डैश्च स्वान् परान् युद्धधुर्मदाः मृदा केजित्क्षदा केजित् केजिच्चत्रधरा बभुः निजघ्नुः परवीरांस्ते स्वबलेन महाबलाः भग्नेशस्त्रे समग्रे ते मल्लयुद्धपरायणाः युयुधु क्रोधसंयुक्ता शस्त्रहीनास्तथापरे कबन्धा युयुधुस्तत्र शस्त्रहस्ता महाबलाः स्वान्परानपि जघ्नुस्ते स्वपरज्ञानवर्जिताः बाणाैर्बाणान् समाक्षुब्धा विजघ्नुश्च परस्परं खड्गै खड्गांस्तथा चान्ये गदाभिश्च गदाभृशं तोमराैश्च महावीरा पशुभिस्तु तथा परे भिन्दि बालैश्च पाश्यैश्च परिजघ्नुः परस्परं रथारूढा गजारूढैर्गजारूढाः पदातिभिः अश्वारूठैस्तथान्येऽपि युयुधुर्जातसम्भ्रमाः तु तुमूलं दैत्यदेवानां युद्धं तत्र प्रवर्तितम् उभयोर्नाशकङ्कोरं वक्तुं नैव प्रशक्यते प्रवाहबहुलैरकृदैरजसम्प्लाविदं महद प्रकाशस्तत्र सञ्जातस्वभरज्ञानकारकः प्रबोध्य केचिद्दैत्यां स्थानसुराजघ्नोर्महाबलाः असुराश्च सुरांस्तद्वन्महाक्रोधसमन्विताः शक्तैः कुपितास्तत्र दैत्यांश्चैव प्रजह्रिरे शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् दैत्या प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमण्डलम् छिन्नं भिन्नमिमे चक्रुक्रोधयुक्ता महाबलाः मेरुसीताचलप्रख्या दैत्या देवास्थिता बभुः चेलुर्न चपदं तत्र परस्परवधेरताः नभवन् शो देवदैत्यशरीरेभ्यप्रसूताश्च सहस्रशः मेधो मांसमहापङ्काः प्रपेदुर्धरणीतले देवाश्च शदशो दैत्या गतप्राणारणे सुर मांसम् कर्दमरूपेण यत्र तत्र स्थितं रणे मृदानां न संख्यासीन मगरोधन कारिण प्रवाहजे जन जलौक येन्द्र महामोह प्रवर्धन मृतर्गजा भग्नवाजिवानापशुगणुष्ट्रै पक्षिभिर्दुर्गमं कृतं मुमूषुर्वस्तत्र पेदुर्मृधा केचिच्च खण्डिताः तदपि चक्रूरादृताः एवं दशदिनान्येव दिवारात्रं महारणं बभूव समये तस्मिन् देवदैत्यसमुद्भवम् पलायनपरादेवास्ततो जादा महारणे दशदिक्षु भयोद्विघ्नाः पलायन्तासुरेश्वर तद्दृष्ट्वा परमाश्चर्यं वज्रभृदेवपैर्वृतः सङ्ग्राममकरोद्घोरं दैत्यनाशकरं परं वज्रपादेनासुरांश चूर्णयामासवे गदः देवेन्द्रो विविधैरन्यैर्यमाद्या आयुधैस्तथा मृदा दैत्यगणा केचिद्भृशं केचिच्च मूर्च्छिताः मुमोर्षवः परे तत्र शत्यादि शक्त्यादिशस्त्रपादेन वह्निचन्द्रयमादयः असुरान् मारयामासुक्रोधयुक्ता सुरेश्वराः ततो भग्नं बलं सर्वं दैत्यानां भयसङ्कुलं दुद्रावदिक्षुसर्वास्सुत्राधारं नाभ्यपद्यत ततः संहर्षिता देवास्तथा देवगणाः परे जयशक्ते महामाये वदस्ते जय सर्वदा तद क्रोधसमायुक्तस्तारको दैत्यपैर्हृतः आययौ क्रोधदीप्ताक्षो योद्धुं चक्रेण वीर्यवान् आगत्य रणभूमिं स तमुवाच पुरन्दरं गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः तारक उवाच किं त्वं युध्यसि देवेन्द्र दैत्यपैः परमादृतैः मया योक्तैकबाणेन न समोऽसि सुराधिप बलेन यदि संयुक्तस्तदा किमरावतीं त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि इति तस्य वच श्रुत्वा सुरेन्द्रस्तमुवाचः क्रोधसंरक्तचक्षुर्भिर्भक्षयन्निव दानवान् तारकत्वं वल्गसि किं पश्य मे पौरुषं महद आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महद पश्चात्त्वां चक्रमेणाहम्मदं सबलवाहनम् हत्वाभिवाद्यचिं च गमिष्याम्यमरावतीम् आदौ शक्तिविहीनोऽहं किं करोमि पराक्रमं अधुना शक्तिसंयुक्तकथनं ते करोम्यहं किं बहूक्तेन दैत्येन्द्र दर्शयस्वपराक्रमं नो चेद्गच्छस्वपादालं मिथ्या वल्गसि किं वचः ॐ तत्सदितिः श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते इन्द्रतारकसमागमो नाम ओम्